गुरुब्रह्मा गुरुविष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्र सङ्ग्रहः न्यायचिन्तनवर्गे सर्वेषां सुस्वागतम् रूपरसगन्धस्पर्श इत्येतेषां गुणानां लक्षणम् अपि च तेषां वैविध्यं तेषां वर्तित्वम् इत्युक्ते विद्यमानत्वं कुत्र कुत्र भवति इति एतत् सर्वम् अस्माभिः अधीतम् तदनन्तरं अधी अधी कार्यकारणभावे किञ्चिदिव चिन्तितं किमर्थम् इति चेत् गन्धवती पृथिवी इति लक्षणवाक्यमस्ति तर्हि गन्धः केवलं पृथिव्याम् एव लभ्यते इत्यतः अनयोः मध्ये कार्यकारणभावः अस्ति वा कार्यकारणभावः निश्चयार्थम् तर्कः कः इति चेत् तत्र अन्वयव्यसहचारः व्यतिरेकसहचारः द्वयमपि ययोः मध्ये भवति तत्र निश्चयेन कार्यकारणभावः सिद्ध्यति अपि च अन्वयव्यभिचारः व्यतिरेकव्यभिचारः द्वयोः मध्ये सिद्ध्यति चेत् तत्र कार्यकारणभावः नास्ति इति निश्चयितुं शक्यते इति अस्माभिः अधीतं तर्हि पृथिवी गन्धस्य कारणं पृथिवी दादात्म्यसम्बन्धेन पृथिव्यां वर्तते गन्धः समवायसम्बन्धेन पृथिव्यां वर्तते तर्हि तयोः मध्ये सामानादिकरणीयमस्ति तदेव सहचारः इति कृत्वा अस्ति अस्ति तत्र उपयुज्य पृथिवी अस्ति गन्धः अस्ति पृथिवी नास्ति चेत् गन्धः नास्ति इति तादृशं वाक्यद्वयमपि वक्तुं शक्यते इत्यतः पृथिवीगन्धयोः मध्ये कार्यकारणभावः अस्ति अत्र पृथिवीकारणं गन्धः कार्यं तर्हि इतोपि एकः प्रश्नः उदेति असमवेतगुणानां ज्ञानं कथम् इत्युक्ते समवेतम् इत्युक्ते समवायसम्बन्धेन यदस्ति अन्यस्मिन् तस्य नाम अस्ति समवेतं गन्धः पृथिव्यां समवेतम् अस्ति किन्तु जले असमवेतम् अस्ति इत्युक्ते गन्धः यदा कदापि जले समवायसम्बन्धेन वा येन केनापि सम्बन्धेन न भवति पृथिव्याम् लभ्यते इत्यतः किन्तु अस्माकम् अनुभवः अस्ति जले सुगन्धः अस्ति तर्हि तादृशसुगन्धः कथं वा जले आगतम् इति चेत् तत्र पार्थिवकणाः जलेन संयुक्ताः सन्ति इत्यतः स्वसामानाधिकरणसंयुक्तत्वसम्बन्धेन गन्धः जले प्रतियते इति अस्माभिः अधीतं तादृशमेव पुनः नूतनप्रश्न प्रश्नः आगतः एकं रूपम् इति प्रतीः प्रतीतिः तत्र एकत्वम् इति गुणः सङ्ख्या अपि च रूपम् इति गुणः एकत्वं कथं वा रूपे आगतं तत्र केन सम्ब सम्बन्धः इति चेत् तत्र समवायसम्बन्धः वा संयोगसम्बन्धः वा तादात्मकसम्बन्धः वा स्वरूपसम्बन्धः वा दैशिकसम्बन्धः वा कालिकसम्बन्धः वा इति यः कोऽपि सम्बन्धः तत्र इत्यतः तत्र इदानीम् एकत्वं घटे विद्यते एकः एव घटः अस्ति इति कृत्वा एकत्वं घटे विद्यते अपि च रूपमपि घटे विद्यते तर्हि एकत्वम् अपि च घटं रूपम् अनयोः मध्ये सामानाधिकरण्यं समानाधिकरणमस्ति घटः तेन तत्र सामानाधिकरण्यसम्बन्धेन एकं रूपं इति व्यवहर्तुं शक्यते इति अधीतं तत्र एकः प्रश्नः अस्ति प्रश्नः कः इति चेत् यदि एकस्मिन्नेव घटे द्वे रूपे उपरिभागे पीतरूपम् अधोभागे नीलरूपम् इति एकस्मिन्नेव घटे द्वे रूपे इति चेत् तत्र इदानीं घटे एकत्वमेव विद्यते किन्तु द्वे रूपे स्तः इति ज्ञानं भवत्येव तर्हि कथं वा द्वित्वं रूपे आगतं यद्यपि घटे एकत्वमेव अस्ति कथं वा द्वित्वं रूपे आगतम् इत्यस्मिन, इत्यस्मिन् इत्यस्मिन् विषये प्रश्नः उदितः तस्य उत्तरम् एतावत्पर्यन्तं न उक्तम् अग्रे आयास्यति इतोपि किञ्चित् अग्रे तत् पठित्वा पुनः एतत् प्रश्नं प्रति चिन्तयामः अपि च एकत्वम् इति किमर्थं वदति नतु तु एकः इति गुणः एकत्वं तत्र भावप्रत्ययमुपयुज्य किमर्थं वदति इति अपि प्रश्नः आगतः एके एकत्वम् अस्ति किन्तु तत्र चित्रपटं पश्यामश्चेत् कस्मिन् पुटे सप्त अशीतितमपुटे अधोभागे चित्रपटमस्ति तत्र एकत्वं घटे अस्ति रूपं घटे अस्ति इत्येव लिखितं एकः रूप घटे अस्ति एके घटे तत्रापि प्रश्नः इदानीमपि अस्ति तस्यापि निवारणम् अस्माभिः न कृतं किञ्चिदिव मया उक्तं तदेवर्गे स्वामिना प्रश्नः कृतः इत्यतः किन्तु इतोपि गभीरचिन्तनं तत्र भवितुमर्हति तदपि अनन्तरं पश्येम तर्हि इदानीम् अष्ट अशीतितमपुटे गुणनिरूपणे क्रमप्राप्तं सङ्ख्यां निरूपयति ततः इदानीं पठनीयम् तर्हि मेहुल् महोदय आरब्धुमिच्छति वा आं महोदय गुणनिरूपणे क्रमप्राप्त्यामप्राप्तां कर, कर, सङ्ख्यां निरूपयति एकत्वादिव्यवहारहेतुः संख्या सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता इति वदतु अत्र सङ्ख्या इत्यस्य लक्षणवाक्यं दत्तम् अत्र एकत्वादिव्यवहारहेतुः सङ्ख्या इति महोदय तस्मात् क्रमप्राप्तम् इत्यस्य अर्थः कः वयं पठन्तः स्मः खलु गुणनिरूपणं भिन्नभिन्नगुणाः सन्ति चतुर्विंशतिगुणाः सन्ति तर्हि वयं दृष्टवन्तः चक्षुर्मात्रग्राह्यो गुणः रूपम् अपि च व्यसनग्राह्यो गुणो रसः इति सर्वे अधुना अन्य एकं गुणमिति संख्या तस्य निरूपणं अग्रे आयास्यति इति इति अस्ति हा इत्युक्ते अत्र क्रमः कः इति चेत् अत्र चतुर्विंशतिगुणाः क्रमेण लिखिताः खलु तदनन्तरं पञ्चमः गुणः अस्ति सङ्ख्या इति तर्हि किमर्थम् इदानीं सङ्ख्यायाः विषये चिन्तनं किमर्थं विभागस्य विषये वा संयोगः इत्यस्य विषये वा तत् ते अपि गुणाः एव किमर्थमिति क्रमप्राप्तम् इदानीं पञ्चमगुणः यथा क्रमं लिखितं तत् आधारीकृत्य क्रमप्राप्तम् इति अत्र सङ्ख्या स्वीकृतमस्ति निरूपणार्थम् अस्तु समीचीनम् अत्र अत्र लक्षणवाक्यं किं लक्षणे कति दलानि सन्ति हा अस्तु सङ्ख्या इत्यस्य लक्षणं किं तर्हि एकत्वादिव्यवहारहेतुः इति एव तस्य लक्षणम् अत्र अहं चिन्तयामि एक एव दलमस्ति एकत्वादिव्यवहारहेतुः किमर्थम् इत्युक्ते हेतुः इत्युक्ते हेतु कारणं व्यवहार इति वयं दृष्टवन्तः पूर्वे किं कं किमपि ज्ञानं जनयति ज्ञानजनकशब्दः इति व्यवहारः अतः एकं द्वे त्रीणि एते सर्वे शब्दाः सङ्ख्यायाः ज्ञानं वयं प्राप्तुं शक्नुमः तत् तद् आधारेण तद अतः एक एकं द्वे इति सर्वे आदि यत् शब्दाः सन्ति तत् शब्दाः अस्माकं सङ्ख्यायाः ज्ञानं दत्ति ज्ञानं कर्तुं शक्नुमः तत् एतेन शब् एतेन शब्देन अतः अत्र एक एव दलमस्ति एकत्वादि व्यवहारहेतुः इति एकत्वादि इति समीचीनम् एक एव दलमस्ति अत्र यदा भवता उक्तं हेतु इत्युक्ते कारणं व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः कीदृशशब्दप्रयोगः इत्यस्य इत्यस्य उदाहरणमस्ति एकत्वादि कति घटाः सन्ति इति अहं पृच्छामि चेत् भवान् वदति त्रयः घटाः सन्ति इदानीं त्रयः इति पदं प्रयुक्तं भवता अपि च मम मनसि तस्य ज्ञानम् अपि तस्मिन् तस विषये ज्ञानमपि उत्पादितम् तर्हि त्रयः इति त्रयः इत्यस्य आधारः कः तादृशव्यवहारकर्तुं पदार्थः कः इति चेत् सङ्ख्या इति गुणः यदि सङ्ख्या इति गुणः अस्ति इति न स्वीकुर्मः तर्हि एकं द्वे त्रीणि इति तादृशव्यवहारमेव न कर्तुं शक्यते इति कृत्वा एकत्वादिव्यवहारहेतुः कारणमस्ति सङ्ख्या अपि च एकमेव दलम् अत्र किमर्तं गुणः इति तलं दलं त्यक्तम् अहं एतावत्पर्यन्तं वयं रस रस रसः अपि च रूपम् इति सर्वे अपि च शब्दः इति सर्वे वयं दृष्टवन्तः तत्र रसनग्राह्यगुणरसः अपि च श्रोत्रेन्द्रियग्राह्यो गुणः शब्दः चक्षुर्मात्रग्राह्यो गुणः रूपम् इति सर्वे यदि वयं द्रक्ष्यामः चेत् तत्र इन्द्रियस्य पद पदानि सन्ति तत्र इन्द्रियग्राह्येण एव तत् तत् तत् तेषां लक्षणानि कृतानि अत्र किमपि सङ्ख्या इति किमपि इन्द्रि इन्द्रिय सङ्ख्यायाः लक्षणम् अत्र कोऽपि इन्द्रियेण अतः तत्र तदेव अहं अहं पश्यामः तत्र पश्यामि तदेव इत्र अत्र किञ्चित् भिन्नः विशेषः अस्ति अतः एव मम चिन्तनमस्ति इति अत्र गुणशब्दस्य आवश्यकता नास्ति एक त, एक द्वे इति विशेषपदानि केवलं सङ्ख्यायाः कृते एव वयं पूर्व वदामः अतः अन्यकोपि शब्दस्य आवश्यकता नास्ति समीचीनं किन्तु तत्र इदानीं रूपरस रूपरसः इति इत्यस्य लक्षणं कुर्मः तत्र इन्द्रियं न घ्राणग्राह्यो गुणः गन्धः इति चिन्तयामः घ्राणेन्द्रियेण ग्राह्यः गुणः तत्र तस्मिन् गन्धस्य लक्षणे किमर्थं गुणपदस्य आवश्यकता अस्ति यदि गुणपदं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति वयं दृष्टवन्तः पूर्वे एव पठितवन्तः जाती इत्यस्य अपि गन्धत्वजातौ गन्धत्वजातौ अतिव्याप्तिः भवति किमर्थम् इत्युक्ते इन्द्रियेण द्रव्यमपि गृह्यते तस्य तस्मिन् विद्यमानजातिः अपि गृह्यते इन्द्रियत्वेन इति कृत्वा तत्र अतिव्याप्तिः भवति किन्तु अत्र इन्द्रियेण इन्द्रियं स्वी स्वीकृत्य इन्द्रियेण ग्राह्यत्वं स्वीकृत्य सङ्ख्यायाः लक्षणं न निर्मितम् अत्र केवलं व्यवहारः शब्दप्रयो ज्ञानजनकशब्दप्रयोग प्रयोगः स्वीकृत्य तस्य कारणमस्ति सङ्ख्या इति कृत्वा यदि एकत्वादिव्यवहार हेतुः इति तावदेव वदामश्चेत् तत्र अन्यत्र यत्र कुत्रापि अतिव्याप्तिः वा अव्याप्तिः वा तादृशदोषः दोषाः न भवन्ति इत्यतः तावत् पर्याप्तं भवति आम् सत्यं समीचीनम् अग्रेपि महोदय सा नवद्रव्यवृत्तिः आं सा इत्युक्ते संख्या संख्या नवद्रव्येषु वर्तते आ, आ, वयं जानीमः पृथिवी जल जलं तेजः वायुः आकाश इत्यादि नवद्रव्येषु सर्वेषु संख्या इति वयं द्रष्टुं शक्नुमः तत् तदेव अत्र द्रष्टुमित्युक्ते व्यवहर्तुं शक्नुमः इत्युक्ते त्रयः घटाः बहवः जलम् इति तादृशव्यवहारः कर्तुं कति अग्नि अग्नयः सन्ति अत्र इति चेत् एकः अग्निः सन्ति अस्ति एकः आकाशः बहवः आत्मानः अनन्ताः आत् आत्मानः इति तादृशं सङ्ख्याम् उपयुज्य सङ्ख्याम् आधारीकृत्य तत्र व्यवहारं प्रत्येकं द्रव्याणां विषये तत्र बहवः परमाणवः सन्ति अनन्ताः परमाणवः इति सर्वत्र नवद्रव्येषु एतादृशव्यवहारं कर्तुं शक्यते इत्यतः सा सङ्ख्या नवद्रव्यवृत्तिः अग्रेपि महोदय एकत्वादि अग्रे वयं दृष्टवन्तः गजसप्ताहे एक आदि एकत्व आदि एकत परार्धपर्यन्त इति सङ्ख्या इत्यस्य गणनां यत् यदा वयं कुर्मः चेत् एकं द्वे त्रीणि इति सह शतम् अपि च सहस्रम् अपि च लक्षकोटि अपि च परार्धपर्यन्तं वयं गणनां कर्तुं शक्नुमः अतः सङ्ख्या इत्यस्य एकत्वेन आरम्भं पराधपर्यन्तं तस्य गणना भवति इति हा इत्युक्ते तत्र गणना इति, इति, इति, इति, इति, इति, इति इत्यस्मिन् स्थाने तत्र वैविध्यं यथा रूपं सप्तविधं रसः षड्विधः गन्धः द्विविधः सुरभिः असुरभिश्च स्पर्शः त्रिविधः उष्णस्पर्शः शीतस्पर्शः अनुष्णाशीतस्पर्शः तादृशं वैविध्यमुक्तं किल एवमेव एव अत्र सङ्ख्या कति विधानि इति चेत् आरभ्य एकत्वम् आरभ्य परार्धपर्यन्तं बहुविधानि सन्ति सङ्ख्या सामान्येव सङ्ख्या आम्� इति नास्ति इदानीं एक अधिकपरार्ध इति वदामश्चेत् तत्र तत्तु सङ्ख्या एव तत्र आङ्ग्लभाषायां वदामश्चेत् तत्र वन्स् टेन्स् तौ हण्ड्रेड्स् तौसण्ड्स् तौ, देन् मिल्लिन् मिल्लियन् बिल्लियन् ज़िल्लियन् तत्र ज़िलियन् तस्मादुपरि किमपि नास्ति किन्तु तस्मादुपरि अपि गणनं कर्तुं शक्यते न् तादृशं गणनं कर्तुं शक्यते किन्तु वैविध्यं कति विधम् इति चेत् तत्र परार्धपर्यन्तमेव आमां सत्यम् अत्रापि वैविध्य अत्रापि एक एक एकत्वम् इति कथं तत्र उपयो उपयोगं कृत इति अत्यपि प्रश्नः वदति खलु सत्यं सत्यं सर्वत्र एकम् इत्यस्मिन् स्थाने एकत्वम् इत्येव व्यवहारं कृतमस्ति अन्ते hmm. अग्रे आयास्यति इतोपि तत्र प्रायः उट द्वयस्य अनन्तरं तस्मिन् विषये पुनः चिन्तयामः अस्तु समीचीनं महोदय अग्रे हा किमपि वक्तव्यं वा समीचीनं अस्तु तर्हि एकत्वादिव्यवहारहेतुः सङ्ख्या सा नवद्रव्यवृत्ति एकत्वादिपरार्धपर्यन्ता इति मूलग्रन्थे उल्लिखितं तस्मिन्नेव विषये इतोपि अग्रे दायच्छति स्वामी महोदय पठति वा आं महोदय सङ्ख्यायाः प्रभृति विभागान्ताः गुणाः नवसु अपि द्रव्येषु वर्तन्ते <coughs> तथा हि द्वित्वादीनां वक्ष्यमाणरीत्या द्वित्वादीनां वक्ष्यमाणरीत्या कदाचित् कदाचित कादाचित् कत्वेपि एक एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति एको घटः एकः आकाशः इत्यादि ज्ञानैः तत्सिद्धिः परिमाणस्तथा तत्सिद्धिः तावत् वदतु अत्र किमस्ति सङ्ख्यायाः प्रवृत्तिः विभागान् नवस महोदय संख्या यद्गुणमस्ति तद् नवसु द्रव्येषु अपि सङ्ख्या इति गुणं वर्तन्ते इति सत्यं किन्तु अत्र रूपरसगन्धस्पर्श एतत् पञ्च विहाय आगच्छति संख्या.. आरम्भ आरम्भं अन्तिमं बुद्धि भवतः पुरतः अस्ति नास्ति चेत् तत्र बेहुल् महोदय भवतः मनसि अस्ति वा इदानीम् आमां मम पुरु मम पुरतः अस्ति महोदय ग्रन्थः अस्तु रूपरस्य ग्रन्थस्पर्शसङ्ख्यापरिमाणपृथत्वसंयोगविभाग इति विभागपर्यन्तं गुणामः तर्हि पञ्चमगुणः संख्या आरभ्य नवमगुणः विभागः पर्यन्तम् अन्तः सङ्ख्या परिमाणं पृथक्त्वं संयोगविभाग इति पञ्चगुणाः नवसु अपि द्रव्येषु वर्तन्ते बुद्धं खलु सामान्यर्थं कृतम् न न तादृशं नास्ति विभागः इति गुणः सङ्ख्या इति गुणः आरभ्य प्रभृति इत्युक्ते तत्र आरभ्य विभाग इति गुणः पर्यन्तं पञ्चगुणाः इत्युक्ते सङ्ख्या परिमाणं पृथक्त्वं संयोगविभाग इति पञ्चगुणाः नवसु अपि द्रव्येषु वर्तन्ते इति अर्थः वाक्यस्य अर्थः अस्तु अग्रे महोदय तथा हि द्वित्वादीनां वक्ष्यमाणरीत्या कदा कादाचित् कत्वेपि एकत्वं सर्वेषु सर्वेषु सर्वदा भवति द्वित्वादीनां वक्ष्यमाणरीत्या hmm. द्वित्वादीनाम् इति द्वित्वम् एकत्वं द्वित्वं, एक द्वित्वं सत्यम् प्रथमसङ्ख्या अस्ति एकत्वम् एकत्वं द्वित्वं तत् तद्विहाय द्वित्व आदि द्वित्वम् आभ्य आरभ्य तत्र द्वित्वं त्रित्वं चतुर्थम् इति तादृशं स्वीकुर्मः पञ्चत्वं षड्वम् इति परार्धपर्यन्तम् यत् सा आं महोदय कादाचित् कत्वेपि कदाचित् कादाचित् कत्वेपि इत्युक्ते महोदय संख्या त्रीलिङ्गमस्ति तादृशं न द्वित्वादिरम्भत एकनिमिषम् एकनिमिषं तत्र कादाचित् कादाचित् कत्वम् तदेव वदतु प्रथमं द्वित्वादीनां त्रित्वा द्वित्वं त्रित्वम् इति त्यजतु कादाचित् इति पदस्य अर्थः कः किमपि संख्या यदस्ति प्रायः सूचयति कदाचित् महोदय अत्र अहं स्पोकन् संस्कृत् डोट् वाजि मध्ये पश्यामि चेत् स्टेट् आफ़् अकरिङ्ग् ओकेजनल् इत्युक्ते यदा वयं इच्छा करोति चेत् तत् आगच्छति तदेव तद्भवति तत्र अपेक्षा अस्ति चेत् तत्र द्वित्वम् इत्यादि सर्वं तस्य उत्पादनं तस्य जन जनम् उत्पादयति एते सर्वे उपेक्षा नास्ति चेत् केवलम् के एकत्वमेव सर्वे सर्वदा भवति खलु परन्तु यदि अस्माकम् अपेक्षा अस्ति सत्यं महोदय किन्तु अत्र प्रथमं कादाचित् कत्वम् इति पदस्य अर्थं समीचीनतया जानीमः अहं पृच्छामि भवन्तं तत्र प्रतिदिनं किमिति वृष्टिः भवति वा इति अहं पृच्छामि चेत् भवान् वदति कदाचित् भवति इति कदाचित् इत्युक्ते किम् अकेशनलि तर्हि कदाचित् इति अकेशनलि इति वदति किल कदाचित् तस्य भावः अस्ति कादाचित् कत्वम् कदाचित् oh, okay. इति पदस्य भावपदार्थः अस्ति कादाचित् कत्वं यदा तत्र दशरथस्य पुत्रः दाशरथि इति वदामः किल तादृशं oh, okay. कदाचित् कदा तत्र घटे घटत्वम् दृढपदार्थे दार्ढ्यम् इति वदामः किल तादृशं कदाचित् कदाचित् इत्यत्र कादाचित् कत्वम् इति भावः अस्ति इत्युक्ते hmm. यदा कदापि भवति इति सामान्य अर्थः तत् सङ्ख्या भवतु यत्किमपि भवतु तस्य तस्य उत्पादनं तत्र अपेक्षा अस्ति चेदेव भवति इति भिन्नवार्ता किन्तु कादाचित् कत्वम् इत्युक्ते किम् इति कदाचित् इत्यस्य भावः कादाचित् कत्वम् अकेशनल्नस् mm -hmm. okay. इति तादृशम् आङ्ग्लभाषायां वदामि चेत् uh -huh. घटत्वम् इत्युक्ते इति तादृशं कादाचित् कत्वम् इत्युक्ते तादृशभावः वृष्टिः mm -hmm. कदाचित् भवति इति वदामश्चेत् वृष्ट्यां कीदृशभावः अस्ति इति चेत् कादाचित् कत्वभावः अस्ति सर्वदा न भवति इति अर्थः तर्हि इदानीं कादाचित् कत्वं कुत्र अस्ति द्वित्वादीनाम् अस्ति द्वित्वादिषु अस्ति द्वित्वादीनाम् अस्ति इति न द्वित्वादिषु कादाचित् कत्वम् अस्ति किन्तु एकत्वे किमस्ति इति चेत् एकत्वं तु सर्वदा सर्वस्मिन् सर्वेषु द्रव्येषु वर्तत्येव आम् इति बोधनार्थम् एतद्वाक्यं प्रयुक्तमस्ति अस्तु पुनः एकवारं पठित्वा स्वामी महोदय वदतु अस्य वाक्यस्य अर्थः आं महोदय तथा हि द्वित्वादीनां वक्ष्य वक्ष्यमाणरीत्या कादाचित् कत्वेपि एकत्वं सर्वेषु द्रव्येषु सर्वदा भवति Huh. Uh, द्वित्वादी द्वित्वादीनां यदस्ति uh, कादात् uh, कदाचित् कर्त्वं uh, तत् सङ्ख्यायां शं, सङ्ख्यायां uh, सं, सङ्ख्येषु महोदय तत्र सङ्ख्यादि बहुवचनं प्रयुक्तुम् इष्ट इच्छति चेत् सङ्ख्यासु इति सङ्ख्यासु हा सङ्ख्यासु कादाचित्त्वं कादाचित् अस्ति महोदय किन्तु सर्वेषु सर्वेषु यदा कदापि सङ्ख्यासु यदा कदापि आगच्छति किं कुत्र आगच्छति कादाचित् सङ्ख्यासु अस्ति इति वदन्ति चेत् तद् दोषाय द्वित्वा द्वित्वादि द्वित्वादिषु सङ्ख्यासु कादाचित् कत्वम् अस्ति किन्तु एकत्वम् इति अपि सङ्ख्या अस्ति किल एकत्वे कादाचित् कत्वम् अस्ति वा नास्ति हा तुलरीत्या एकत्वे तु Haan. द्वित्वादिषु <Sess> सङ्ख्यासु कादाचित् कत्वं कादाचित् कत्वं भवति किन्तु एकत्वे एकत्वं कीदृशमस्ति एक चेत् सर्वेषु द्रव्येषु सर्वदा भवत्येव अपि च वक्षमाणरीत्या इत्युक्ते तत्र द्वित्वा द्वित्वं द्वित्वं कथं जायते इत्यस्मिन् विषये अग्रे वक्ष्यते तर्हि तादृशरीत्या द्वित्वस्य उत्पादनं भवति तत्र कारणं भिन्नभिन्नकारणमस्ति भिन भिन तस्मिन् विषये अग्रे पठिष्यामः इति इदानीम् एकत्वम् इति सर्वेषु द्रव्येषु सर्वदा भवत्येव आकाश आ, आकाशे द्वित्वं भवितुम् अर्हति वा आका, आका न महोदय नित्यम् एकः नित्यं सत्यं तर्हि द्वित्वम् आका आकाशे यदा कदापि न भवति एवमेव काले अपि यदा कदापि न भवति किन्तु घटे भवितुमर्हति कदा भवति यदा अस्माकम् अपेक्षाबुद्धिः भवति कति घटानि सन्ति इति मनसि मनसि यदा प्रश्नः उदेति तदा एव तस्मिन् द्वित्वं जायते इति नैया एकानां तर्हि अस्माकम् अपेक्षा नास्ति चेदपि तत्र एकः घटः अस्माकं पुरतः अस्ति तदहं न पश्यामि तथापि तत्र एकत्वमस्ति वा इति चेत् अस्ति एव एकत्वस्य अपेक्षाबुद्धि अधीनत्वं नास्ति एकत्वे अपेक्षा मम अपेक्षाबुद्धिः अस्ति चेद्वा नो चेद्वा यत्किमपि भवतु तत्र एकत्वं घटे अस्ति एव किन्तु द्वित्वादि संख्या, घटे कदा जायते इति चेत् यदा मम अपेक्षा अपेक्षाबुद्धिः भवति तदा एव तेषु सा संख्या जायते इत्यतः तत्र कादाचित् कत्वम् एव अस्ति मम पुरतः बहवः घटाः सन्ति इति इति चिन्तयतु द्वे घटे स्तः इति चिन्तयतु किन्तु मम मनसि एतावत्पर्यन्तं कति घटाः सन्ति इति प्रश्नः न उदेति तर्हि तत्र द्वित्वं न जायत्येव यदा प्रश्नः उदेति तदा एव द्वित्वं जायते इत्यतः द्वित्वे कादाचित्कत्वम् एव अस्ति किन्तु एकत्वं तादृशं नास्ति मम अपेक्षाबुद्धिः अस्ति वा न वा तत्र एकत्वम् इति गुणः अस्ति एव अपि च प्रत्येकं द्रव्ये स च भवतु प्रत्येकं द्रव्ये एकत्वम् इति गुणः सङ्ख्या वर्तते एव वर इति अत्र उक्तम् अग्रे महोदय अग्रे अपि एको उदाहरणार्थम् एको घटः एकः आकाशः एकः अभावः ज्ञानं तत् सिद्धं करोति एकत्वं सर्वेषु ग्रु सदा भवति इति सत्यं किन्तु अत्र उदाहरणद्वयं दत्तमस्ति घटः अपि च आकाशः अनयोः मध्ये किमर्थम् आकाशः उदाहरणत्वेन स्वीकृतम् एकः घटः एकः अभावः एकः पटः इति किमर्थं उक्तम् एकः घटः एकः आकाशः इति किमर्थम् उक्तम् इत्यस्मिन् विषये चिन्तनमस्ति वा महोदय घटं यदस्ति तद् नित्यं नास्ति तद् अस्ति आकाशः यदस्ति तद् नित्यमस्ति प्रायः उदाहरणद्वयं तत्र वक्तुमिच्छति हा इति वैशिष्ट्यमस्ति तत्र तद् मनसि भवेत् नित्यम् इत्युक्ते यद् कार्यं न भवति तद् नित्यं यस्य उत्पादनमेव न भवति तद् नित्यम् इति वदामः तर्हि परमाणूनाम् उत्पादनं यदा कदापि न भवति आकाशः काल दिक् आत्म मनांसि इत्येतेषां द्रव्याणाम् उत्पादनं यदा कदापि न भवति इत्यतः तत्र द्रव्यं द्रव्यस्य उत्पादनं न भवति चेत् द्रव्यस्य उत्पादन अनन्तरमेव तस्मिन् गुणस्य उत्पादनं भवितुम् अर्हति अस्माकं निकषा सन्ति किल कार्य का कार्योत्पत्तिक्षणे पूर्वक्षणे कारणं भवेत् इदानीं गुणस्य कारणं किं यत्किमपि गुणस्य कारणं किम् वदति वा महोदय कारणं किं द्रव्यं समीचीनं द्रव्यं यः कोऽपि गुणस्य कारणं, कारणं, कारणं तस्य आधारीभूतद्रव्यमस्ति तर्हि द्रव्यं गुण विना गुणस्य उत्पादनं न भवति किल महोदय अपि च अधीतं कारणं तु कार्यस्य उत्पादनसमयपूर्वक्षणं भवेत् इति तर्हि घटे एकत्वं इति गुणः तस्य उत्पादनं भवेत् चेत् कटः तस्मात् पूर्वक्षणे भवेत् खलु हा इदानीम् आकाशः तु नित्यः तर्हि आकाशे सर्वदा विद्यमान एकत्वं आकाशे कदा आगतः आकाशे विद्यमान एकत्वं नित्यं वा नो तदपि कार्यं वा इति प्रश्नः उदेति खलु उदेति महोदय हा तस्य सूचनार्थम् अत्र उदाहरणद्वयं दत्तमस्ति वस्तुतः अग्रे एतत् सर्वम् आयास्यति तर्हि सङ्ख्या द्विविधा अस्ति नित्य अनित्य इति नित्यद्रव्येषु विद्यमानसङ्ख्या एकत्वं नित्या अस्ति अनित्यद्रव्येषु विद्यमान एकत्वम् अनित्या एक अस्ति घटः तु अनित्यः घटस्य उत्पादनानन्तरमेव तस्मिन् एकत्वम् उत्पद्यते तर्हि सा तादृश एकत्वं घटस्य नष्टात् तस्य नष्टः अपि भवति घटघटनष्टे तस्मिन् विद्यमानगुणानामपि नाशः भवति इति कृत्वा तस्मिन् विद्यमान एकत्वम् अनित्यमस्ति किन्तु आकाशः यदा कदापि न उत्पन्नः इति कृत्वा तस्मिन् विद्यमान एकत्वमपि आकाशस्य उत्पादन अग्रिमक्षणे एव तस्य उत्पादनं भवति इति दातुं शक्यते इति कृत्वा किन्तु एकत्वम् अस्ति एव तस्मिन् तर स च एकत्वं कीदृशः इति चेत् नित्या आकाशे इति नवे इति नित्यद्रव्येषु विद्यमान एकत्वम् इति सङ्ख्या नित्या अस्ति अनित्यद्रव्येषु विद्यमान एकत्वम् इति सङ्ख्या अनित्या अस्ति इति इति एतत्सर्वं सूचनार्थम् अत्र उदाहरणद्वयं स्वीकृतमस्ति अग्रे एतत् सर्वम् आयास्यति किन्तु तत्र सूचना किमर्थम् आकाशः उक्तः न तु अभावः वा इति चेत् आकाशः नित्यः इति बोधनार्थम् ताम। एतद् उक्तम् समीचीनम् अग्रे मेहुल् महोदय पठति वा आं अपि तथा तस्य अणुमहदादिविभागः ग्रन्थकारेण प्रदर्श्यते तावद् महोदय तावद् वदतु तदनन्तरं भवान् एव अग्रे पठतु प्रथमं तावद् अपि तथा इत्युक्ते परिमाणे अपि एकत्वं सर्वे परिमाणे यत् एकत्वमस्ति तदपि सर्वेषु एकत्वमस्ति वा आम् आम् परन्तु परिमाणं तु सर्वेषु द्रव्येषु सर्वदा भवति हा तदेव आशय परिमाणमपि तथा इति चेत् तत्र तथा इत्यनेन किं बोध्यम् इति चेत् सर्वेषु द्रव्येषु सर्वदा भवति इति अर्थः तावदेव तत्र स्वीकर्तव्यं सर्वेषु द्रव्येषु सर्वदा यथा एकत्वं भवति तथा परिमाणमपि सर्वेषु द्रव्येषु सर्वदा भवति इति अर्थः अस्तु अग्रे महोदय अग्रे तस्य अणु महदादि विभागः ग्रन्थकारेण प्रदर्श्यते वयं दृष्टवन्तः परिपरिमाणम् इति त्रिविधम् अणुपरिमाणं महत्परिमाणम् अपि च मध्यमपरिमाणम् इति ग्रन्थकारेण प्रदर्श्यते पूर्वे वयं परिमाणस्य विभागः हा किन्तु अत्र इतोपि चिन्तयितुं शक्यते एकत्वम् इति सङ्ख्या सर्वेषु द्रव्येषु सर्वदा वर्तते एकत्वम् इति सङ्ख्याया सङ्ख्यायाः एकविधः अस्ति mm -hmm. तत् स च इति एकविधः सङ्ख्या सर्वेषु द्रव्येषु सर्वदा भवति तादृशम् अणुपरिमाणं नो चेत् परममहत्परिमाणं नो चेत् मध्यमपरिमाणम् इति एकविधपरिमाणं सर्वेषु द्रव्येषु सर्वदा भवति वा केवलं परिमाणम् इति एव सर्वेषु द्रव्येषु सर्वदा भवति वा आम् परिमाणम् एव सर्वेषु सदा भवति अणुपरिमाणमिति सर्व सर्वेषु न भवति महत्परिमाणमपि सर्वे द्रव्येषु सर्वेषु द्रव्येषु सर्वदा न भवति अपि च मध्यमपरिमाणमपि सर्वेषु द्रवेषु सर्वदा न भवति परन्तु परिमाणं तु सर्वेषु द्रवेषु सर्वदा भवति एव सत्यम् इति किञ्चित् भेदः वर्तते अत्र सङ्ख्या सर्वेषु द्रवेषु सर्वेषु सर्वदा भवति इति तु सत्यं किन्तु ततोपि इतोपि सूक्ष्मरीत्या वक्त वक्तव्यं इतोपि तत्र अपरं व्यक्तिं स्वीकृत्य एकत्वं तु सर्वदा सर्वेषु द्रवेषु भवति द्वित्वादयः सर्वेषु द्रव्येषु सर्वदा न भवति अत्र अणुपरिमाणं वा महत्परिमाणं वा मध्यमपरिमाणं वा तादृशं न वक्तुं शक्यते केवलं परिमाणं यः कोपि परिमाणं यत्किमपि परिमाणं सर्वेषु द्रव्येषु भवति किन्तु एकविधपरिमाणं सर्वेषु द्रव्येषु सर्वदा भवति इति न वक्तुं शक्यते इति किञ्चित् भेदः अस्ति अस्तु अग्रे महोदय आं सञ्चनम् अग्रे सङ्ख्यावदेव पृथक्त्वम् एकपृथक्त्वं द्विपृथक्त्वम् इत्येवं दि इत्येवं विधं भवति तत्र द्विपृथक्त्वादीनां कादाचित् कादाचित् कत्वेपि एकपृथक्त्वं सर्वेषु द्रव्येषु भवति अत्रापि सङ्ख्या ङ्ख्यायाः वर्णनं वयं दृष्टवन्तः तदेव अत्रापि अग्रिमं गुणः अस्ति पृथक्त्वम् इति mm. तद् अपि तस्यापि तद, तद, तद, तद विभागाः विवि वैविध्यं भवति एक एकपृथकत्वम् अपि च द्विपृथकत्वम् इति तस्यापि वैविध्यं भवति तत्रापि एकपृथक्कत्वं सर्वेषु द्रव्येषु सर्वदा भवति परन्तु यदि वयं विवीक्षा कुर्मः द्विपृथत्वम् अपि च त्रिपृथत्वम् इति सर्वा स इति सर्वादि पृथक्त्वं यदि वयं पश्यामः चेत् तत् कदाचित् एव भवति अतः तस्मिन् कादाचित् कत्वम् इति भावः अस्ति द्विपृथक्त्वादीनाम् एतेषां कदाचित् कत्वं भावः अस्ति hmm. समीचीनं तर्हि पृथक्त्वम् इति सप्तमगुणः अस्ति क्रमे hmm. तादृशक्रमेण उक्तं तत्र ता क्रमं पश्यामश्चेत् सप्तमगुणः अस्ति पृथक्त्वम् इति तस्मिन् इदानीं पृथक्त्वम् इत्युक्ते कृतः पटात् पृथक् इति वदामश्चेत् तत्र पृथक् इति व्यवहारं कुर्मः किल तद् केन आधारेण इति चेत् पृथक्त्वम् इति गुणस्य आधारिम् आधारं स्वीकृत्य एव आधारीकृत्य एव एतादृशफलप्रयोगः कर्तुं शक्यते घटः पठात् पृथक् तत्र एकपृथक्त्वं तत्रापि एक तत्रा इदानीं यथा एकं रूपम् इति वदामः तदा गुणोऽपि गुणे जायमान प्रत्ययः अस्ति अत्र एकपृथक्त्वम् अत्र सङ्ख्या अपि अस्ति पृथक्त्वम् इति गुणः अपि अस्ति सङ्ख्या इति गुणः पृथक्तम् इति गुणः अपि अस्ति किन्तु तादृशप्रभेदः अपि भवितुमर्हति तत्र तर्हि पृथक्त्वं कतिविधम् इति चेत् अस्माकम् अपेक्षानुसारं भवति घटः पटात् पृथक् वा इति वदामश्चेत् तत्र एकपृथक्त्वमेव उक्तं घटः पटात् अपि च कपालात् भिन्नः इति वदामश्चेत् इति घटः पठात् कपालात् पृथक् इति वदामश्चेत् इदानीं द्विपृथक्त्वं घटे आहतम् तर्हि तत्र द्विपृथक्त्वम् आरभ्य अस्माकम् अपेक्षाबुद्धेः आवश्यकता अस्ति किन्तु एकपृथक्त्वं सर्वदा वर्तते एव कस्मात् पृथक् इति इति प्र पृष्ठे सति एव तत्र पृथक्त्वम् आगतम् इति न घटः अस्ति चेत् तस्मिन् पृथक्त्वं वर्तते तदेव अतः एव एकः व्यक्तिः इति वक्तुं शक्यते अपि च घटकपालयोः मध्ये अपि पृथक्त्वमस्ति कपालः इति भिन्नपदार्थः भिन्नद्रव्यमस्ति घटः अपि भिन्नद्रव्यमस्ति नैयायिकानां मतानुसारम् इत्युक्ते तत्र पृथक् इत्युक्ते दैशिकरूपेण पृथक्तया स्थापितम् इति अर्थः न न स्वीकरणीयः पृथक्त्वम् इत्यस्मिन् विषये पठेम अग्रे आयास्यति किन्तु पृथक् इति गुणः अस्ति अनेन एव तत्र घटः इति व्यक्तिः तत् इण्डिविजुवल्टि तादृशचिन्तनं पृथक्त्वम् इति गुणम् आधारीकृत्य एव वक्तुं शक्यते आम् इति बोधः अस्तु समीचीनं तर्हि प्रत्येकं पदार्थ अन्यपदार्थस्य कृते पृथक् भवति अतः एकपृथक् पृथक्त्वं सर्वदा भवति एव सत्यम् एकपृथक्त्वम् इति गुणः सर्वेषु द्रव्येषु सर्वदा भवति यथा एकत्वम् इति सङ्ख्या सर्वेषु द्रव्येषु सर्वदा भवति तदा एकपृथक्त्वं सर्वेषु द्रव्येषु सर्वदा भवत्येव किन्तु तदधिकं द्विपृथक्त्वं वा द्विपृथक्त्वं वा इति तादृशपृथक्त्वम् अस्माकम् अपेक्षाबुद्धि आधारीकृत्य एव भवति अस्तु समीचीनं एक आं महोदय एकपृथक् द्विपृथक्तम् इत्युक्ते पृथक्त्वं तु एक गुणमस्ति एक द्वि अपि तत्तु संख्या अस्ति महोदय सत्यं रूपं रूपे इति व्यवहारं कुर्मः तदा अत्रापि एकपृथक्त्वं द्विपृथक्त्वम् इति व्यवहारः भवितुम् अर्हति इति भवितुमर्हति इतो इतोपि गभीरचिन्तनं यदा पृथक्त्वम् इति गुणस्य विषये पठामः तदा पठिष्यामः तदा इतोपि गभीरचिन्तनं कर्तुं शक्यते किन्तु अत्र आशयः एतदेव अस्ति यथा एकत्वम् इति सङ्ख्या सर्वेषु द्रन्द्रव्येषु सर्वदा भवति तथा एकपृथक्त्वम् इति गुणः अपि इति पृथक्त्वमपि सर्वेषु द्रवेषु सर्वदा भवति इति मनसि भवेत् आम् अस्तु भवानेव अग्रे पठतु महोदय अग्रिमं संयोगः प्रसिद्धः स च प्रायः क्रियाजन्यः आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति इति प्राक् निरूपितं परन्तु घटादिमूर्तेषु उत्पद्यमानया क्रिया आकाशादौ संयोगः जायते विभागोपितं तदनन्तरं पर। विभागस्य विषये चिन्तनमस्ति तर्हि संयोगविषये चिन्तयामः आम् महोदय संय, संयोगः तु प्रसिद्धः सम्बन्धः द्रव्येषु मध्ये संयोगः अस्ति इति क्रियाजन्यः संयोगः अपि च महोदय अत्र संयोगः इति कीदृश कीदृशपदार्थः संयोगः अपि गुणम् अस्ति महोदय सत्यं संयोगः इति गुणः इति अवगन्तव्यं द्रव्येषु मध्ये एव भवति संयोगः इति भवता उक्तं तत् समीचीनं किन्तु संयोगः इति गुणः इति अवगन्तव्यं तर्हि इदानीं घटभूतयोः मध्ये संयोगः भवितुमर्हति द्वयमपि द्रव्यम् इत्यतः किन्तु इदानीं संयोगः इति गुणः घटे केन सम्बन्धेन भवति तत्र सन्दर्भः वा वक्तव्यः वा न वक्तव्यः वा संयोग इति गुणं घटे कथं वर्तते वा महोदय प्रश्नः रूपं घटे कथं वर्तते महोदय मह, सामायसम्बन्धं महोदय सत्यं किमर्थं जन्यजनकभावः अस्ति तत्र कार्यकारण ना, ना, ना। जन्यजनकभावः का नास्ति गुणगुणिनोः मध्ये समवायसम्बन्धः उक्तः किल हा आं महोदय गुणगुणिनोः मध्ये समवायः हा तत्र तत् इत्युक्ते भवता उक्तं कार्यकारणभावः अस्ति इति तु सत्यं तत्र कार्यम् इति इदानीं रूपमिति कार्यम् इति स्वीकुर्मश्चेत् रूपमिति कार्यं कारणे घटे समवायसम्बन्धेन वर्तते इत्यतः गुणगुणिनोः मध्ये समवायसम्बन्धः एव भवितुम् अर्हति इति इतोपि गभीरचिन्तनं भवतः कृतं तत् समीचीनमेव किन्तु सामान्यरीत्या वदामश्चेत् गुणः गुणिनि समवायसम्बन्धेन एव भवति पञ्चसु स्थलेषु समवायसम्बन्धः भवितुम् अर्हति केवलं पुनस्मारणार्थम् अहं वदामि अवयव अवयविनोः मध्ये गुणगुणिनोः मध्ये क्रियाक्रियावर्त्योः मध्ये विशेष नित्यद्रव्ययोः मध्ये जातिव्यक्तयोः मध्ये पञ्चसु स्थलेषु समवायसम्बन्धः भवति इति उक्तम् तर्हि इदानीं वदतु संयोगः इति कीदृशपदार्थः संयोगः इति हा। संयोगः इति गुणः गुणीनि केन सम्बन्धेन भवति समवायसम्बन्धेन भवति हा तर्हि गटः भूतले संयोगसम्बन्धेन वर्तते किन्तु संयोगः इति गुणः केन सम्बन्धेन घटे वर्तते समवायसम्बन्धेन घटे हा इति महा तत्र महान् सिद्धान्तः अस्ति अय्यायिकानां मतानुसारं यद्यपि तत्र घटभूतलयोः मध्ये संयोगसम्बन्धः वर्तते इति वयं वदामः तत्र किं चिन्तयितुं शक्यते घटः संयोगसम्बन्धेन भूतले वर्तते इति तु सत्यं किन्तु इदानीं संयोगः संयोगे पृथ्वी संयोगुण अस्त भिन्नपदार संयोग गुण द्रव्ये घटे समवाय समवायं वर्ततेम संयोग गुण है भूतले द्रव्ये समवायंब संयोग गुण द्वनिष्ट एक घटे घट घटे वर्तते अन्यस्मिन् पार्श्वे इत्युक्ते एकं दण्डं स्वीकुर्मश्चेत् भवान् दण्डस्य एकम् अन्तं स्वीकरोति अहं दण्डस्य अन्यम् अन्तं स्वीकरोमि चेत् इदानीं वयम् आवां द्वयमपि तत्र दण्डस्य किमिति धरणं कुर्मश्चेत् दण्ड दण्डः द्विनिष्ठाः भवतामपि अस्ति भव भवन्त भवतः अपि अस्ति भवन्तमपि अस्ति मामपि अस्ति न न भवन्तमिति नास्ति भवती अपि अस्ति कवती अस्ति मयि अपि अस्ति दण्डः द्विनिष्ठः एवमेव संयोगः इति गुणः तेन एव संयोगः इति गुणः तत्र दण्डमिव अवगच्छति तर्हि तत्र संयोगः इति गुणेन घटभूतलयोः मध्ये संयो सम्बन्धः जातः किन्तु दण्डः केन सम्बन्धेन इदानीं नो चेत् तत्र संयोगः इति गुणः केन सम्बन्धेन घटे वर्तते इति चेत् समवायसम्बन्धेन वर्तते एवमेव तत्र अन्त्य अन्यद्भागः अस्ति यत् संयोगः तत् ेन सम्बन्धेन भूतले वर्तते इति चेत् समवायसम्बन्धेन वर्तते इति मनसि भवेत् तादृशमेव तेषां चिन्तनमस्ति बुद्धं खलु आहत्य संयोगसम्बन्धः अपि घटे अपि च भूतले समवायसम्बन्धेन वर्तते इति अस्ति खलु सत्यं भूतलं संयोगसम्बन्धेन घटे वर्तते सारि क्षम्यतां घटः संयोगसम्बन्धेन भूतले वर्तते इति तु सत्यं किन्तु संयोगः तेन सम्बन्धेन घटे आपतितम् इति चेत् समवायसम्बन्धेनैव आपतितं किमर्थम् इत्युक्ते संयोगः इति भिन्नपदार्थः अस्ति अस्मिन् विषये एव तत्र श... ब्रह्मसूत्रे शङ्कराचार्यः प्रश्नं करोति किं प्रश्नं करोति इति चेत् इदानीं संयोगः इति गुणः इति भव भवद्भिः स्वीकृतं तर्हि गुणः गुणिनी समवायसम्बन्धेन भवेत् इति नियमः भवति किन्तु इदानीं समवायसम्बन्धः इति पदार्थः केन सम्बन्धेन घटे आपतितम् hmm. इति सह पृच्छति oh. तस्य उत्तरं नैयायिकैः न दत्तम् <laughs> तर्हि पुनः पुनः शङ्कराचार्यः पृच्छति यदि समवायसम्बन्धः तत्र अन्यः कोऽपि पदार्थस्य अपेक्षा विना स्वयमेव घटे भवितुम् अर्हति चेत् तर्हि संयोगसम्बन्धः अपि तादृशमेव भवतु आं किमर्थं तत्र गुणम् इति स्वीकृत्य तस्य आवश्यकता अस्ति संयोगसमवायसम्बन्धस्य आवश्यकता अस्ति समवायस्य आवश्यकता अस्ति संयोगः इति गुणः गुणः गुणिनि समवायसम्बन्धेन एव भवेत् इत्यतः अत्र समवायसम् तत्र संयोगः इति गुणः इति स्वीकृतं तस्य अन्यसम्बन्धस्य अपेक्षा अस्ति किन्तु समवायः इति अपि सम्बन्धः एव तस्य अन्य अन्य अन्यपदार्थस्य अपेक्षा विना तत् स्वयं सम्बध्यते तत् कथम् इति पृच्छति तत्र <laughs> भवतिषः भवति यदि इतोपि एकः सम्बन्धः वक्तव्यः इति चेत् तत्र लाघवं नास्ति इत्यतः नैयायिकाः तादृशमेव स्वीकृतवन्तः संयोग समवायसम्बन्धस्य अन्यस्मिन् द्रव्ये भवितुम् अन्यस्य सम्बन्धस्य आवश्यकता नास्ति किन्तु संयोगस्य तादृशः तादी आवश्यकता अस्त वस्तु कि संयोग गुण चेय यदयोग संयोगे अस्थ मध्ये संयोग अस्त तभाग शक्य अर्हता अस्त घटभूतो संयोग अस्त इधनी मध्ये केना त्रियया तभाग का शक्य है अहं घटं नयति चेत् तत्र इदानीं तत्र विवाहः कारितः मया घटभूतलयोः मध्ये यः संयोगः अस्ति तस्य नाशः कृतः मया किन्तु कपालघटयोः मध्ये यत् समवायसम समवायसम्बन्धः अस्ति तत्र कपालः तत्र एव भवतु घटमेव अहं नयामि इति तादृशं न न कर्तुं शक्यते किल तत्र यत्र पृथक् कर्तुं न शक्यते यत्र विवादः न कर्तुं शक्यते तत्र समवायसम्बन्धः एव वक्तुं शक्यते किन्तु सम्बन्धः वक्तव्यः इति कृत्वा तादृशनियमः तेन स्वीकृतः इति कृत्वा तत्र सम्बन्धः समवायसम्बन्धः इति भिन्नसम्बन्धः संयोगसम्बन्धः इति भिन्नसम्बन्धः इति स्वीकृतम् इत्युक्ते यस्य नाशः भवितुमर्हति आधारनाशस्य विना इदानीं घट भूतलयोः मध्ये यत् संयोगः अस्ति तस्य संयोगस्य नाशः मया क्रियते किन्तु घटस्य नाशः न ना करणीयः तदर्थं घटं घटस्य अन्यत् अन्यदेशं नयामि चेत् तस्य तत्र संयोगस्य घटे विद्यमानसंयोगस्य नाशः मया कृतः घटस्य नाशं विना किन्तु इदानीं घटकपालमद्योः यत् सयो समवायसम्बन्धः अस्ति तर्हि इदानीं समवायसम्बन्धस्य नाशः मया करणीयः इति चेत् तत्र कपालस्य नाशः मया करणीयः नो कपालद्वयोः मध्ये संयोगः अस्ति तस्य नाशः मया करणीयः तदा एव तत्र घटस्य नाशः भवति इति कृत्वा तत्र भिन्नभिन्नसम्बन्धः नैयायिकैः कृतं किन्तु तत्र लाघवमेव लाघवशरणीयाः नैयायिकाः इति कृत्वा भवतु इदानीं समवायसम्बन्धस्यापि तत्र घटे भवति चेत् तद् अन्येन सम्बन्धेन भवति इति वदामश्चेत् तत्र किमिति अनवस्थादोषः भवति इति कृत्वा तत्र लाघवार्थम् एतादृशं वयं स्वीकुर्मः इति लाघवमेतकरूपेण तर, ते वदन्ति समीचीनम् अस्तु संयोगः इति प्रसिद्धः तदनन्तरं स्वामिमहोदय स च प्रायः क्रियाजन्यः इत्यस्मिन् विषये वदतु महोदय स च प्रायः क्रियाजन्यः आ... स च अत्र सः इत्युक्ते कः सः इत्युक्ते कः सः संयोगः सत्यं संयोगः क्रियाजन्यः इत्युक्ते किमपि क्रिया कृत्वा तत् क्रिया क्रिया संयोगं जातम् इति महोदय सत्यम् इदानीं घटभूतलयोः मध्ये संयोगः नास्ति अहं किं करोमि घटे क्रियां कारयित्वा घटं आनीय तत्र भूतले स्थापयामि चेदेव तत्र संयोगः जायते किल सत्यं महोदय इति कृत्वा संयोगः सर्वदा क्रियया जायते संयोगः क्रियाजन्यः इति आगतम् संयोगः कदा जायते इति चेत् क्रियया जायते यदा क्रिया भवति तदा एव जायते तर्हि क्रिया संयोगस्य कारणं भवति भवतु अत्र प्रायः इति उक्तम् तत् किमर्थम् इति अग्रिमवाक्ये दत्तमस्ति अग्रिमवाक्यं पठतु ओ आम् आकाशादिद्रव्याणां विभुत्वात् क्रिया न भवति इति प्राक् निरूपितम् आकाशादि नित्यद्रव्याणि यानि सन्ति ते विभु तस्मिन् किमपि क्रिया न सम्भवति अत्र पश्यतु यद्यपि भवता उक्तवती नित्यद्रव्यम् अस्ति इति अत्र वस्तुतः तत् इति न वक्तव्यं किमर्थम् अत्र नित्यत्वं क्रिया भवितुम् अर्हार्थं कारणं वा न कारणं तत्र महत्त्वमेव नास्ति किमर्थमित्युक्ते तत्र परमाणवः नित्याः किन्तु तेषु क्रिया जायते तत्र परमाणुद्वयोः मध्ये यदा संयोगः भवति तदा एव उत्पत्तिः उत्पत्तेः आरम्भः भवति सृष्टेः आरम्भः भवति इति कृत्वा यद्यपि आकाशः नित्यः तथापि अत्र नित्यत्वं न वक्तव्यं किमर्थमित्युक्ते अस्य महत्त्वं किमपि नास्ति अतः एव अत्र वाक्ये विभुत्वात् इति एकः एव तर्कः दत्तः विभुत्वम् आकाशे विभुत्वमस्ति तर्हि विभुत्वम् अस्ति इति कृत्वा तस्मिन् क्रिया न अर्हति तथापि अग्रे पठतु महोदय परन्तु परन्तु महोदय परन्तु घटादि घटादिमूर्तेषु उत्पद्यमानया क्रियया आकाशादौ संयोगः जायते आ, ओ यदि घटम् आकाशे अस्ति चेत् घटः संयोगसम्बन्धेन आकाशः अस्ति इति वक्तुं शक्यते चेत् तद् दृष्ट्या वदति घटादि घटं यदस्ति तद् क्रिया एव सं पूर्वं आ, आ, वयं पठितवन्तः संयोगः क्रियाजन्यः अतः घटं यदि विभु विभूत्व द्रव्यं यदस्ति सम्बन्धः कथम् इति अस्ति चेत् क्रियासंयोगसम्बन्धः जायते घटादि द्रव्येषु हा घटादिद्रव्येषु इति केवलं न अत्र तयोः मध्ये सम्बन्धः इदानीं तद्वदतु क्रमेण गच्छेत् uh, घटादि इति अनित्यद्रव्येषु किमर्थं मत... वदति अत्र नित्यम् अनित्यम् इत्यस्य महत्त्वं किमपि नास्ति महोदय नित्यं वा भवतु अनित्यम् अत्र वैशिष्ट्यं महत् तस्य महत्त्वं किमपि नास्ति नित्यद्रव्येषु एव संयोगः भवति अनित्यद्रव्येषु एव संयोगः भवति इति तादृशं किमपि अस्ति वा न महोदय तर्हि नित्यत्वम् अनित्यत्वम् इति पदमेव कृपया न प्रयोजं प्रयोगं करोतु नो चेत् मम मनसि प्रश्नः उदेति भवान् किमर्थं नित्यम् अनित्यम् इति वदति प्रायः भवतः मनसि नित्यद्रव्येषु संयोगः न भवितुम् अर्हति इति तादृशचिन्तनमस्ति वा इति प्रश्नः मम मनसि उदेति तर्हि अत्र पश्यतु क्रमेण गच्छेम संयोगः क्रियाजन्यः इति प्रथमसोपानमस्ति यत्र यत्र संयोगः जायते तत्र तत्र क्रियया एव संयोगः जायते इति एकं द्वितीयं तु संयोगः द्विनिष्ठः यदा मया उक्तं तत्र दण्डः इत्यस्मिन् उदाहरणे द्विनिष्ठः द्रव्यो मध्ये संयोग बच्चे तद्पी सोपनेजयाम प्रथम संयोग क्रियाया जायते संग क्रियाजन्य प्रथम सोपन द्वितयसोपनम संग्ष गुण तृतीय सोपनमस््रव्योर मध्ये संयोग जायते चतुर्थसोपनम आकाशादी द्रव्या विभु विभवा तु विभुस्भु तस् क्रिया यदा कदा न जायते इनमकाशो मध्ये संयोग विंतनीय तदव प्रश्न घट आकाशयोः मध्ये संयोगः वक्तुं शक्यते वा इति प्रश्नः भवेदेव आकाशः अपि द्रव्यं घटः अपि द्रव्यं द्रव्ययोः मध्ये संयोगः भवत्येव इति अस्माभिः स्वीकृतं तर्हि संयोगः भवत्येव इति चेत् संयोगः उत्पन्नः गुणः अस्ति तस्य उत्पादनं वक्तव्यं क्रियया एव संयोगः भवति अपि च संयोगः द्विनिष्ठः तर्हि एकस्मिन् पार्श्वे तत्र इदानीं इदानी नित्यत्वं वक्तव्यम् इदानीं नित्यत्वं वक्तव्यम् आकाशः नित्यद्रव्यमस्ति तस्मिन् क्रिया यदा कदापि न जायते तथापि तस्मिन् नित्य विभुद्रव्ये संयोगः जायत्येव यद्यपि क्रिया न भवति तथापि तत्र प्रायः अत्र नित्यत्वविद्यस्य महत्त्वम् इदानीमपि नास्ति विभुः इति तावद्वदामश्चेत् पर्याप्तम् संयोगः द्विनिष्टः इति कृत्वा यद्यपि आकाशः विभुः तस्मिन् आकाशे यदा कदापि क्रिया न जायते तथापि तस्मिन् संयोगः भवत्येव किमर्थं संयोगः द्विनिष्ठः यदा इतः अस्मात् आकाशात् अन्यत्र घटं नयामः घटे तत्र क्रिया जायते तर्हि घटे संयोगः जायते संयोगः द्विनिष्टः इति कृत्वा यदा घटे संयोगः जायते तदा आकाशे अपि संयोगः जायते यद्यपि आकाशे क्रिया न जाता तर्हि आकाशे विद्यमानसंयोगः क्रियाजन्यः न इति आगच्छति तत्रैव प्रश्नः तर्हि सर्वे संयोगाः क्रियाजन्याः वा इति प्रश्ने सति सत्यं सर्वे आ... सर्वे संयोगः क्रियाजन्याः एव यद्यपि आकाशे क्रिया न भवति तथापि तत्र अन्यद्रव्यं यदस्ति तत् मूर्तद्रव्यं तस्मिन् क्रिया जातुम् अर्हति चेत् संयोगः द्विनिष्टः इति कृत्वा तत्र अन्यस्मिन् पार्श्वे क्रिया तत्र संयोगः भवेदेव स च अस्ति चेदपि तत्र क्रिया तत्र संयोगः भवेदेव इत्यतः आकाशः यद्यपि विबुद्रुभ्यः अस्ति तस्मिन् क्रिया जाता अपि तस्मिन् संयोगः भवत्येव इति बोधनार्थम् एतत् सर्वम् उक्तम् उक्तं खलु अहं महोदय गभीरचिन्तचिन्तनमेव गभीरचिन्तनं किन्तु <laughs> कि अत्र नित्यत्वस्य वैशिष्ट्यं किमपि नास्ति विभु आकाशे क्रिया जायते संयोगः क्रिया एव जायते तर्हि विभुद्रव्येषु कथं वा संयोगः जायते इति चेत् तत्र मुख्यतर्कः अस्ति संयोगः इति गुणः द्विनिष्ठः इति कृत्वा एकस्मिन् पार्श्वे तत्र विभुद्रव्यं तत्र मूर्खद्रव्यम् अस्ति चेत् पर्याप्तं भवति तस्मिन् संयोगः जायते चेत् तेन विभुद्रव्येषु अपि संयोगः जातुम् अर्हति तर्हि भवता समीचीनतया अवगतं वा इति अवगमनार्थम् अहं भवन्तम् एकं प्रश्नं पृच्छामि स्वामिमहोदयस्य प्रश्नः अस्ति यथा इदानीम् आकाशकालयोः मध्ये संयोगः भवितुम् अर्हति वा कालः अपि विभुः आकाशमपि अपि विभुः यद् विभुद्रव्यमस्ति तस्मिन् क्रिया न सम्भवति संयोगसम्बन्धं क्रिया एव जायते द्वयोः अपि क्रिया न सम्भवति अतः द्वयोः मध्ये संयोगसम्बन्धं न भवितुम् अर्हति बहु तर्हि मया बुद्धम् भवता अवगतम् इति तर्हि तत्र मूर्तद्रव्यमूर्तद्रव्यद्वयोः मध्ये संयोगः भवितुम् अर्हति उदाहरणार्थं घटपटयोः मध्ये घटभूतलयोः मध्ये इति एकम् एकस्मिन् पार्श्वे मूर्तद्रव्यं यस्मिन् क्रिया जातुम् अर्हति अन्यस्मिन् पार्श्वे विबुद्व्यं यस्मिन् क्रिया न जातुम् चेदपि तयोः मध्ये संयोगः भवितुम् अर्हति किन्तु द्वयोः विबुद्द्रव्ययोः मध्ये यदा कदापि संयोगः न भवति इत्यतः एव एकस्मिन् देशे एव तत्र बहवः आत्मानः भवितुम् अर्हति आकाशः अपि च कालः भवितुम् अर्हति दिक् अपि भवितुम् अर्हति किमर्थमित्युक्ते एतत् सर्वं यद्यपि एतत् सर्वाणि द्रव्याणि सन्ति तथापि तानि सर्वाणि विभवः सन्ति इति कृत्वा तयोः मध्ये संयोगः यदा कदापि न भवितुम् अर्हति इति कृत्वा तत्र एकस्मिन् देशे एव सर्वं भवितुम् अर्हति अस्तु समीचीनम् अग्रे गच्छामः मेहुळ् महोदय अग्रे पठति वा संयोगनाशको गुणः इति लक्ष्यते स्यापि विभुद्रव्येषु मूर्तसमवेतक्रियया उत्पत्तिः भवति आहत्य च नवसु द्रव्येषु एते भवन्ति इति ते साधारणगुणाः इति प्रसिद्धाः अस्तु अत्रापि विभाग विभागः इति अग्रिमं गुणः तस्य लक्षणवाक्यमस्ति संयोगनाशकः इति संयोगनाशकः गुणः इति तस्य लक्षणं संयो संयोगसम्बन्धस्य नाशः करोति चेत् विभागः भवति अतः विभागः इति गुणः संयोगनाशकः इति तस्य लक्षणं तस्यापि hmm. तस्या विभूद्रव्येषु मूर्तसमवेतक्रियया उत्पत्तिः भवति अत्रापि वयं दृष्टवन्तः पूर्वे संयोगः प्रसिद्धः घट गट, घटादिमूर्तेषु उत्पा उत्पद्यमानया क्रियया एव आकाशादौ संयोगः जायते अतः अत्रा, अतः अत्रापि विभागस्य अपि उत्पत्तिः कदा भवति तर्हि विभूत्रगेषु मूर्त समवेत् क्रियया उत्पत्तिः भवति मूर्त घटादिमूर्तद्रव्येषु क्रियया उत्पद्यते त तदेव विभुद्रव्येषु विभागः भवति तस्य कारणं भवति क्रियया क्रिया इति तस्य कारणं भवति विभु यत् विभागः भवति तस्य कारणं मूर्तद्रव्येषु यत् क्रिया अस्ति तदेव तस्य कारणम् अस्ति हा तर्हि तत्र समवेतमूर्तसमवेतक्रियया इत्युक्ते किं समवेतसमवेत इति अहं न जानामि समवेतमिति अद्य एव मया उक्तं किल समवायसम्बन्धेन यद् अन्यस्मिन् वर्तते तद् समवेतम् इदानीं <us> क्रिया केन सम्बन्धेन क्रियावती भवति क्रिया यः कोऽपि क्रिया यः कापि क्रिया मूर्त मूर्तद्रव्ये केन सम्बन्धेन वर्तते संयोगसम्बन्धेन न समवाय क्रिया क्रिया मूर्त, क्रियवती समवायसम्बन्धेन भवति किल तदेव इदानीं तर्हि क्रिया मूर्तद्रव्ये समवेतम् आ इति वक्तुं शक्यते तर्हि मूर्तसमवेतक्रियया विभुद्रव्येषु विभागः उत्पद्यते विभागस्य रक्षणमस्ति संयोगनाशको गुणः इतियोगस्य नाशः कः करोति इति चेत् विभागः इति गुणः करोति करो विभागः इति गुणः केन जायते इति चेत् क्रियया एव जायते तर्हि विभागः अपि क्रियाजन्यः संयोगः अपि क्रियाजन्यः सर्वे विभागः इति गुणः किं किं करोति इति चेत् संयोगस्य नाशं करोति तदेव तस्य प्रयोगः अस्तु आहत्य च नवसु द्रव्येषु एते भवन्ति एते इत्युक्ते अधुना वयं नव गुणाः चर्चितवन्तः रूपरसगन्ध सङ्ख्यापरिमाणं पृथक्त्वं संयोगम् असंयोगः अपि च विवादः एते नव नव गुणाः साधारणगुणाः इति प्रसिद्धाः ते सर्वे नवसु द्रव्येषु भवन्ति इति भवन्ति वा रूपम् आकाशे अस्ति वा आकाशे रूपं नास्ति वायो अपि रूपं नास्ति रूपं तु <coughs> केवलं पृथिव्यां के जले तेजसि विद्यते तेजसि तर्हि अत्र एते नवगुणाः न उक्ताः पञ्चगुणाः उक्ताः सङ्ख्या आरभ्य सङ्ख्या आरभ्य विभागपर्यन्तम् हा पञ्चगुणाः साधारणगुणाः सन्ति साधारणगुणाः तत्रापि इतोपि अस्माभिः चिन्तितं किल तत्र सङ्ख्या सङ्ख्यायाम् एकत्वम् इति गुणः एव साधारणगुणः द्वित्वं द्वित्वादि इति भक्षणरीत्या कदाचित् कथा सर्वे सर्वदा सत्यं तर्हि एकत्वम् इति साधारणगुणः परिमाणं साधारणगुणः एकपृथक्त्वम् इति गुणः साधारणगुणः संयोगः साधारणगुणः विभागः अपि साधारणगुणः सर्वेषु द्रव्येषु सर्वदा वर्तते hmm. समीचीनम् अग्रे इतोपि एकः परिच्छेदः मुख्यवर्गे पठितः इतोपि किञ्चित् समयः अस्ति इति किञ्चिदेव पश्यम अस्तु तर्हि स्वामिमहोदय पठति वा आं महोदय उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः वदामि वा महोदय किञ्चित् अग्रिमे हा अवगच्छति अत्र शीर्षकं किम् अस्ति अवगच्छति उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः इत्युक्ते किम् किमपि द्रव्यं स्वीकरोतु यस्य उन्मत्तिः जातः घटः इति स्वीकरोतु आम् महोदय उत्पत्तिक्षणे तस्मिन् गुणे इत्युक्ते रूपं वा इत्यादि कर्म वा न सम्भवः इति लक्षितं तत्र इत्युक्ते घटः द्रव्यम् इति वयं जानीमः तस्य उत्पादनं भवति कस्मिंश्चित् क्षणे एव घटस्य उत्पादनं भवति तर्हि इदानीम् इदानीम् इति तत्र तस्य तस्य क्षणस्य नाम दद्मः इत्युक्ते चैत्र चैत्रवैशाखक्षणम् इति तस्य नाम दद्मः वैशाखक्षणे घटस्य उत्पादनम् अभवति अभ, भवति चेत् तस्मिन्नेव क्षणे तत्र रूपमिति गुणः वा क्रिया इति क्रिया वा नो चेत् तत्र साधारणगुणाः तस्मिन्ने वा तस्मिन्नेव क्षणे न उत्पद्यन्ते इति अस्मिन् पाठे उक्तम् उत्पत्तिक्षणे द्रव्ये गुणकर्मणोः न सम्भवः तेषां संभावना तत्र न भव तस्मिन् क्षणे न भवति किमर्थम् इति चिन्तयति वा पठनात् पूर्वमेव किञ्चित् चिन्तयामः उत्पत्तिक्षणं पूर्व पूर्वक्षणं प्रायः ते सम्भवन्ति द्रव्यं मेहल् माध्यन्तु अहं चिन्तयामि द्रव्यमिति कार्यं गुणः अपि च क्रिया एते सर्वे द्रव्यमिति कारणं गुण अपि च क्रिया इति सर्वे कार्यमतः सत्यं कारणं विना कार्यस्य उत्पत्तिः न भवति अपि तिस्रः निकषाः अस्माभिः अधीताः किल आम् आम् तत्र एकः निकषा एका अस्ति का कार्योत्पत्तेः पूर्वक्षणे कारणं भवेत् इति तर्हि इदानीं घटे पाठे अस्माभिः अधीतं समवायीकारणम् इत्युक्ते किम् इति रूपस्य समवायीकारणं भवति घटः घटे रूपस्य समवायीकारणं भवति घटः तर्हि रूपस्य उत्पादनस्य पूर्वं पूर्वक्षणे घटः भवेत् तदग्रिमक्षणे एव तस्मिन् घटे रूपम् उत्पद्यते इति कृत्वा नैयायिकानां मतानुसारम् एकक्षणम् इत्युक्ते कस्मिन् क्षणम् इत्युक्ते उत् उत्पत्तिक्षणं तत्क्षणे सर्वाणि द्रव्याणि कार्यभूतद्रव्याणि निर्गुणं तिष्ठति निष्क्रियं तिष्ठति इति नैयायिकानां मतं तस्मिन्नेव क्षणे किमर्थम् इत्युक्ते तेषां निकषा अस्ति पूर्वक्षणे कारणं भवेदिति इदानीं रूपमिति कार्यं क्रिया इति अपि थि कार्यं तस्य कारणं किं भवति रूपस्य समवायीकारणं भवति द्रव्यं तस्य आधारीभूतद्रव्यं क्रियया क्रियायाः कारणं किं भवति तस्य आधारीभूतद्रव्यं तर्हि कन्दुके क्रिया भवेत् चेत् क्रियायाः उत्पादनस्य पूर्वं कन्दुकं भवेत् पूर्वक्षणे कन्दुकं भवेत् नो तस्मिन् क्रिया न भवितुमर्हति एवमेव घटे रूपं भवेत् चेत् रूपस्य उत्पादनं भवेत् चेत् रूपस्य उत्पादनस्य पूर्वक्षणे घटे घटः भवेत् इति नियमः अस्ति तर्हि इदानीं घटस्य एव उत्पादनं जायमानमस्ति तर्हि यस्मिन् क्षणे घटस्य उत्पादनं भवति तस्मिन् क्षणे तस्मिन् रूप, रूपं न आगतं तर्हि एकक्षणं निष्क्रियं निर्गुणं भवति घटः तदग्रिमक्षणे एतत् सर्वं तस्मिन् उत्पद्यन्ते इति सिद्धान्तस्य बोधनार्थम् एषः पाठः आरब्धः तर्हि तत्र केवलं एकवारं परिच्छेदं पठतु तस्मिन् विषये अग्रिम अग्रिम वर्गे चिन्तयामः वारं चिन्तयामः तत्र विचारे इदम् अस्माभिः आलोचितं यत् कारणेन कार्योत्पत्तेः प्राक् क्षणे भवितव्यं वैशाखक्षणे घटोत्पत्तिश्चेत् चैत्रक्षणे सर्वाणि घटकारणानि साक्षात् परम्परासम्बन्धैः कपाले सन्निहितानि भवन्ति अयञ्च नियमः सर्वविधे कारणत्वे आलोचनीयः तत् वक्ष्यमाणं समवायिकारणं वा भवेत् असमवायिकारणं वा तथा सर्वभावजन्यान् प्रति द्रव्यमेव समवायिकारणमिति सङ्ख्यादिगुणानामपि उत्पत्स्यमानानां द्रव्यमेव समवायिकारणं इति अत्र दत्तं तत्पूर्वमेव अस्माभिः पठितं तदा सर्वेषु उत्पद्यमानासु सर्वासु उत्पद्यमानासु कार्यासु कारणं द्रव्यमेव भवति इति पूर्वस्मिन् पाठे अस्माभिः पठितं तस्य परामर्शः अत्र कृतः तावदेव अपि च गुणस्यापि उत्पादनं भवति इत्यतः तस्मात् पूर्वक्षणं द्रव्यं भवेत् तर्हि गुणस्य उत्पादनात् पूर्वं द्रव्यं कीदृशमस्ति इति चेत् निर्गुणमस्ति इति अग्रे आयास्यति भवतु अत्र स्थगयामः प्रश्नः अस्ति वा एतावत् पर्यन्तः नास्ति महोदय समीचीनं समीचीनम् अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादः